अथ पञ्चविंशोऽध्यायः वैशम्पायनवाच तत्काननम् प्राप्य नरेन्द्रपुत्राः सुखोचितावासमुपेत्य कृच्छ्रम् विजहृरिन्द्र प्रतिमा शिवेषु सरस्वतीशालवनेषु तेषु वने मूलफलैरुदग्रैः द्विजाति मुख्या नृषभः कुरूणाम् सन्तर्पयामास महानुभावः इष्टेश्च पित्र्याणि तथा क्रियाश्च महावने वसताम् पाण्डवानाम् पुरोहितस्तत्र समृद्धतेजाश्चकारधौम्यः पितृवन्द्रपाणाम् अपेत्य राष्ट्राद्वसताम् तु तेषाम् ऋषिः पुराणोऽतिथिराजगामा तमाश्रमम् मार्कण्डेयः श्रीमताम् पाण्डवानाम् तमागतम् ज्वलित हुताशनप्रभम् महामनाः कुरु वृषभो युधिष्ठिरः अपूजयत्सुरशिमानवार्जितम् महामुनिम् ह्यनुपमसत्त्ववीर्यवान् स सर्वविद्रौपदीम् वीक्ष्य कृष्णाम् युधिष्ठिरम् भीमसेनार्जुनौ च संस्मृत्य रामम् मनसा तम् धर्मराजो विमना इव ब्रवीत् सर्वे ह्रिया सन्ति तपस्विनोमि भवानिदम् किम् स्मयतीव हृष्टस्तपस्विनाम् पश्यताम् मामुदीक्ष्य मार्कण्डेय उवाच न तातहर्ष्यामि न प्रहर्षजो माम् भजते न दर्पः तवापदम् त्वद्य समीक्ष्य रामम् सत्यव्रतम् स्मरामि स चापि राजा सह लक्ष्मणेनावने निवासं पितुरेव शासनात् धन्वीचरन् पार्थमयैव दृष्टो गिरेः पुरारश्यमूकस्य सानौ